प्रजापतिरकामय प्रजासृजयजयति सेदन्दसहोतारमपश्यते त्वम् मनसानुद्रजर्भस्तम्बेदुहोत् ततोऽपै स प्रजासृजता तास्मात्सृष्टा पाक्रामन् आग्रहेणागृह्णात् अनुग्रहस्य ग्रहत्वम् यः कामयेत प्रजा येजेति सहोतारम् मनसानुद्रत्यदर्भस्तम्बेदुभुयात् प्रजापतिपेतसहोता प्रजापतिरेमभूत्वा प्रजायते मनसा जुहोति मनजबहि प्रजापतिः प्रजापतेराप्त्यै ओर्णया जुहोति ओर्णयबहि प्रजापतिः प्रजापतेराप्त्यै न्यूनया जुहोति न्यूनाद्ये प्रजापतिः प्रजा असजत प्रजानागंसृष्टे एतस्माद्वै योने प्रजापतिप्रजा असृजत यस्मादेव योने प्रजापतिप्रजा असृजत तस्मादेव योने प्रजायते ब्राह्मणो दक्षिणत उपासे ब्राह्मणो वै प्रजानामुपद्रष्टा उपद्रष्टुमत्रैव प्रजायते गृहो भवति प्रजानागम् द्रष्टा नाम् धृत्ते यम्राह्मणम् विद्याम् विद्वाकुम् सञ्जितो रन्धेत् सोरण्यम् पलेत्य गर्भस्पम्भमुद्गच्छ ब्राह्मणम् दक्षिणतो निषाद्य चतुर्होत्रेऽन् व्याचक्षीत एतद्वे देवानाम् परमम् गुष्ठम् ब्रह्म यच्चतुर्होतारः तदेव प्रकाशम् गमयति तदेनम् प्रकाशम् गतम् प्रकाशम् प्रजानाम् गमयति दर्भस्तम्बमुख्यव्याजष्टे अग्निवाल वै दर्भस्तम्बः अग्निवत् एवम् व्याजष्टे ब्राह्मणो दक्षिणन उपास्ते ब्राह्मणो वै प्रजानामुपद्रष्ट उपद्रष्टुमत्तैन उपद्रस्ट यषरिच्छति ईश्वरम् यशोऽर्थोप्याहो यस्यान्ते व्याजष्ट इति परस्तस्मैतेन तदेवैनम् तत्र वनमति तदेवावरुन्धे प्रजातमेवेनमाधत्ते तेनैवोद्दृत्याग्निहोत्रम् जुहुयात् प्रजातमेवेन जुहोदे हविर्निर्वक्ष्यन्दसहोदारम् व्याचक्षीत प्रजातमेवेन निर्गपदे सामिधेनेरुणवक्ष्यन्दश होतारम् व्याचक्षेत सा विधेनैरेव दृष्पारभ्यपदमुते ततो यज्ञो मे दश होता यज्ञात् न भवे पुरुषे प्राणाः नाभिर्दशमे स्वप्राणमेवेणमभिचरति एतावद्वै पुरुषस्य स्वम् यावत्प्राणाः यावदेवास्यास्ति तदभिचरति स्वगतैरणे जहोरिक्पददेवाः एतद्वा अस्यै निर्गृतिगृहेदम् निरृतिगृहेतदेवेण निरवृत्याग्राहयति यद्वाच क्रूरम् तेन वशत्करोति वाचदेवेन क्रूरेण प्रहष्यति राजगाद्यमार्च्छति प्रजापतिलकामयति तलशपोर्णवासोऽेति सेतम् चतुर्होतारमपश्यत् तम् मनसानुर्दृत्याहवनीरे दुहो ततोऽपि सदलशपूर्णवासावसृत तावस्मात्सृष्टावपात्क्रामताम् त्वहेणागृह्णात् तद्ग्रहस्य ग्रहत्वम् दर्शपूर्णमासा वा लभमानः चतुर्होदारम् मनसा धृत्यावनीले यूयात् दर्शपूर्णमासावेवारभ्यप्रदनुज गृहो भवते दर्शपूर्णमासयो सृष्टयोर्धृत्यै स्वकामेत चातुम्भाेति एतम् पञ्चहोदारमपश्यत् तम् मनसानुवृत्त्याः वनीरे जुहोत् ततो वेथ चातुर्मास्यान्यसजरा कान्यस्मात् सृष्टान्यभाः क्रामन् तानि ग्रहेणागृह्णात् ग्रहस्य ग्रहत्वम् चातुर्मास्यान्यालभमानः पञ्चहोदारम् मनसानुद्वृत्त्याः वनीरे जुहुजात् चातुर्मास्यान्येव सृष्ट्वारभ्यपदनत् गृहा भवते चातुर्मास्यानागम् सृष्टा नाः स्वकामेतपशुबन्धकम् सृजये षडेतकम् षड्भोतारमपश्यत् तम् मनसा तद्वृत्याह वनीजे जुहोत् ततो वेदपशुबन्धवसृजना स्वस्मात् सृष्टापाह्रामत् सङ्ग्रहेणा गृह्णात् सद्ग्रहस्य श्रद्धोतारम् मनसानुद्वृत्याः वनीरे जघुजात् पशुबन्धमेव दृष्ट्वारभ्यप्रदनते ग्रहो भवते पशुबन्धस्य दृष्टस्य धृत्तेः स्वमेत सौम्यमद्भरकम् सेति स एतकम् सप्तहोतारमुपश्यत् तम् मनसानुद्वृत्याः वनीरे जुहोरे सौम्यमद्भरम सजराम् सोऽस्मात् तद्ग्रहस्य ग्रहत्वाम् ते क्षिष्यमाणः सप्तहोदारम् मनसानुप्राः वनीजे जभुजात् सौम्यमेवाध्वरकम् षष्टारभ्य प्रदमते गृहो भवति सौम्यस्याध्वरस्य षष्ठस्तधर्ते देवेभ्यो वै यज्ञस्य प्रभोक्ते आदिथ्यमासाद्यव्याचष्टे यज्ञमुखम् वा आदिक्ष्यम् मुखतरेव यज्ञकम् सम्भृत्य प्रदमदे अयज्ञो वादेशः न प्रजाप्रजालेरन् पत्नीर्व्याचष्टे यज्ञमेवाकः प्रजानाय उपसत्स व्याजष्टे एतद्वे पत्नीनामायुधनम् स्वदेवेण आयुनेव कल्पयति प्रजापतिलकामे तत्प्रजा येन सतपोदप्यदा सत्प्रभृतव्यस्त्वामोददा तम्पञ्चदशस्त्वमो मध्यरपुदोः लवक्षश्चापरवक्षश्चाभवराम् भो रवक्षम् देवान्वसिन्ताम् अपरवक्षमन्वसुराः रो देवाभवन् परासुराः कामले तवसीयाम् स्यादिति तम्पोहोटपक्षे जा जनेत् वसीजानेव भवति कामलेदपापीजा तमपरपक्षेजा जनेत् पापीजानेव पापी भवति तस्मात्मोर्पक्षोपरपक्षात्मरण्यतरः प्रजापदर्वेदज होता चतुर्होता पञ्चहोदा षड्भोदाहोता नमः संवत्सरः प्रजाप्रशमनिमे लोका प्रदेवम् प्रजापदम् बहवर्भोजागम् संवेद भोजागन् भवति प्रजापदर्देवासुदास रजद स इन्द्रमपिनासजद तम् देवाब्रुवन् इन्द्रन्नब्रवीत् यथा यस्मागस्तपसा शक्षि एवमिन्द्रम् जनयध्वमिति हे तपोदप्यन्त तहात्मन्निन्द्रमपश्यन् तमब्रुवन् या यस्मेति म्भागतेषयते यतोत्सरम् प्रजाः पशोन् इमान् लोकानित्यब्रवन् तम् वैमाहुत्याप्रजनहितयात्यब्रवीत् तम् चतुर्हात्राप्राजनयन् यः कामलेत वीरोमाजालेत स चतुर्होतारञ्जभुजात् प्रजापतुर्वे प्रजापतिरेव भूत्वा प्रजायते यजलिन्द्रमिन्दुजाय स्वाहे निग्रहेण जहोति आस्य वीरोयते वीरगुम्भिदेवालेतया हुत्या प्राजनयन् आदित्याष्टाङ्गिरतश्चतुर्वर्गे लोके स्पर्धन्त अयम् पौर्वे तु वर्गम् लोकमियामयम् पौर्वगिते तम् पुराप्रातरुवाकादाग्ने ततो वैते पूर्वे सुवर्गम् लोकमायन् यः स्वर्गकामः स्यात् सपञ्च होतायम् पुराप्रातरुवाकादाग्ने ध्रेदुघुजा वैपञ्च होता संवत्सरस्वर्गो लोकः संवत्सर एव तष्ठाय स्ववर्गम् लोकमेति ऋवर्णम् हव्यम् वक्ष्यापरि छन्दस्वित्यब्रमन्त्रयाम् द्रष्टुभिजगच्छ्यामिति तस्माच्छन्दस्तु सद्यानिभ्यः आङेरसे प्रजाहव्यम् वहन्ति वहन्त्यस्मै प्रजापलिम् ऐनमप्रतिख्यायम् गच्छति यदेवम् वेदा द्वादशमासाः पञ्चत्तवः ते मे लवकाः असावा नित्यरेकविहंशः एतस्मिन्वा एतस्मिन्प्रतिष्ठितः श्रितम् प्रतिष्ठितम् वेद प्रत्येवतिष्ठते प्रजापजनगामेधप्रजाेतिपश्यत् आत्मानम् विधायत्रादप्य तस्य कीर्तिः स्रुगासीत् चित्तमाज्यम् तस्य एतावत्येव वा गासेत् एतावानैरज्ञक्रतुः चतुर्होतारमसृजना सोऽनन्दजिवानिममिति रस्रोमाहविरासेन सतुर्होत्रादप्यता सोताम्यत् स भोरिजव्याहरत् सभोमिमसजत अग्निहोत्रीजमदप्यदा सोताम्यत् स भो वैदिव्याहरत् सोऽन्तरिक्षमसज चातम् हास्यानि सामानि सतीयमदप्यत सोदाम्यज सिव्याहरज स दिवमसृजत अग्निहोरा एतावे व्याहृदय इमे लोका इमाङ्कलवे लोका प्रजापशुपच्छन्दागुंसिक् प्राजायन्ताम् यदेवमेता प्रजापदे प्रथमा व्याहृदे प्रजाता वेदा प्रजयापशुभिर्मचने तस्मै सोमस्त्वम् प्रायच्छत् एतत् सप्रत्यङ्गबाधर सोऽसुरानसजन तदस्याणस्व हिरण्यस्य जन्म तद्वितीयमदप्योदाम्यद् स्वप्राङ्गबाधर सदेवानसजन तस्य प्रियमाधीर र्णकम् हिरण्यमभवत् सुवर्णस्व हिरण्यस्य जन्म एव हिरण्यस्य जन्म वेद सुवर्ण आत्मना भवते सुर्वर्णाः श्रभ्रादनुः अस्मात् सुवर्णकम् हिरण्यम् भार्यम् सुवर्णदेव भवति ऐनम् प्रियम् गच्छति ना प्रियम् सप्तहो तारमुसजल सप्तत्रैव प्रणवेन स्तोमेनभ्यो लोकेभ्यो दुराञ चाणुदत त्रयस्त्रिपुंशेन प्रत्यतिष्ठते एकविपुंशेन ऋतुमधत्ता सप्तदृशेन प्राजायत यदेवम् विद्वान् सोमेनैदेव सप्तहो त्रैव सुवर्गम् लोकमेति प्रणवेन स्तोमेनभ्यो लोकेभ्यो भ्यातृभ्यान् प्रणुदते सप्तदशेन प्रजायते तस्मात्सप्तदशस्तो प्रजापतिर्वे सप्तदशः प्रजापतिरेव प्रजात्यै देवायुर्णमयाजयन् शरस्येयस्यै देवदाघे दक्षिणामनयते तामवलीनादे ते ब्रुवन् यावृत्य प्रतिगृह्णाम दक्षिणानवलेश्चे व्यावृत्यप्रतिगृह्णन् ततो वेदान् दक्षिणानाब्लीनात् एवम् वेत्तान् व्यावृत्यदक्षिणाम् प्रतिगृह्णाति नैनम् दक्षिणाब्लीनादि राजा त्वा वरुणानेव दक्षिणे हैरण्यमित्याह आग्नेयम् वैरण्यम् स्वयैवैनद्देवतया प्रतिगृह्णाति सोमायवास इत्याह सौम्यम् वैवादः स्वयैवैनम् देवतया प्रतिगृह्णाति रुद्रायगामित्याह गौद्रैवैगौः स्वयैवैनाम् देवतगा प्रतिगृह्णाति वरुणायाश्वमित्याह वारुणो वाश्वः स्वदेवैनम् देवतगः प्रतिगृह्णाति प्रजावतगेव पौरुणमित्याह राजावत्यो वै पुरुडः स्वदेवेन देवतया प्रतिगृह्णाते मनवेदल्पमित्याह मानवो वैदल्पः स्वदेवेन देवतया प्रतिगृह्णाति पुत्तानायाङ्गीरसाया न इत्याह इयम् वा पुत्तानाङ्गीरसः अनदेवेण प्रतिगृह्णाति अयश्वानुव्यच्चारसम् प्रतिगृह्णाति अैश्वानरो वै देवतया स्वदेवेण देवतगा प्रतिगृह्णाति तेनामदत्तमस्यामित्याह अमृतमेवात्मम् धत्ते वयोधात्र इत्याह वयदेवेनम् कृत्वा स्वर्गम् लोकम् गमयति मयो मह्यमस्वप्रतिग्रहेत्र इत्याह यद्वैषम् तन्मनः आत्मनदेवैकापरेदम् कस्मादादित्याह प्रजापदर्वेदः स प्रजापतये ददाति कामः कामायेत्याह कामेन हि ददाति कामेन प्रतिगृह्णाति कामो दाता कामप्रतिग्रहीतेत्याह कामो हि दाता कामप्रतिग्रहीता कामकम् समुद्रमाविशेत्याह समुद्रयि बहि कामः ने बहि कामस्यान्तोऽस्ति न समुद्रस्य कामेन त्वा प्रतिगृह्णामेत्याह येन कामेन प्रतिगृह्णाति स देवेन ममुष्मिल्लोके कामागच्छति कामे तत्तदेशा ते कामदक्षिणेत्याह कामरेव तत् निजमानामुष्मिल्लोके दक्षिणामिच्छति न प्रतिगृहीतरे विद्वान् दक्षिणाम् प्रतिगृह्णाति अणादेवैनाम् प्रतिगृह्णाति अन्तो वा भ्यस्तवन्ति यज्ञस्य इवान्तम् गत्वा अन्नाद्यमवरुन्धते त्रय इमे लोकाः येभ्य एव लोकेभ्योन्नाद्यमवरुन्धते प्रश्नवतेऽपि भवन्ति अन्नम् वै प्रश्ने अन्नमेवावरुन्धते मनसा प्रस्तौति मनसोद्गारते मनसा प्रतिहरति मनैः प्रजापतिः प्रजापते, प्रजापते राज्ञैः देवा वै सर्पाः राज्ञी यत्सर्पराज्ञिना निभ्यस्तवन्ति अस्यामेव प्रतितिष्ठन्ति होत्रे न होताव्याचष्टे सुतमनशंसति शान्त्यैः अन्तोपादेकस्य यद्दशममः एतत्खलु वै देवानाम् परमम् गुह्यम् यच्छतुर्होतारः दशमे ह्यश्चतुर्होदरे व्याजष्टे यज्ञस्यैवान्तम् गत्वा परमम् देवानाम् गुह्यम् ब्रह्मापरम् च तदेव प्रकाशम् गमयति तदेनम् प्रकाशम् गतम् प्रकाशम् प्रजानान् गमयति वादै यच्छति यज्ञस्य एक सर्त्यै यजमानदेवत्यम् वाह नादुर्वदेवत्या अह् रात्रिम् ध्यायेत् भ्रातृर्व्य श्रीवदम् लोकम् वृन्ते यद्यवा वाचम् विसृजेत् महद्भातृर्व्यागवक्षिकुषेत् यन्नम् विसृजेत् रात्रिभ्रातव्यागवक्षिकुषेत् अधिकसौर्ये वाचम् विसृजते एतावन्तमेवात्मैलोकमुच्छिकुंशते यावदादित्योः प्रजा असृजता सृष्टाः समसृष्यन् ता रूपेणानुप्राविशत् तस्मादाहो रूपम् वै प्रजापचलते ता नाम्नानुप्राविशत् तस्मादाहो वे ना ना ना नाम वेत् प्रजापचलते तस्मादप्यामित्रौ सङ्गत्या नाम्ना चेत् मित्रमेव भवतः प्रजापजप्रलेवा सुदासजट्रमभिलासटा तन्देवाब्रवन् इन्द्रम् लोचनयेति सा आत्मन्यन्द्रमपश्यत् तमदजदा तम् दृष्टग्भीर्यम् भूत्वा न प्राविशत् तस्य मज्जः पञ्चदशो तस हस्तः पद्य ते लोकय्यासुरा नभ्युभवत् यदेवम् वेद अभिर्भ्रातुर्व्यान् भवति हे देवासुरेभिजित्या स्वर्गम् लोकमायन् ते अश्वम् लोकेऽभ्यक्षुभ्यन् ते हे अमुतप्रदानम् वा उपजति विमेते ए सप्तहोदाम् आङ्गेतम् राहिन्मन् एतेनामुत्र कल्पनेति तस्य वा इयम् कृप्तिः यदिदम् किञ्च यदेवम् वेद कल्पतेऽस्मै स वा अयम् मनुष्येति यज्ञः सप्तहोदा अमुत्रसद्भ्यो देवेभ्यो हव्यम् वहति यदेवम् वेद उपैन यज्ञो ष्यन्त सवाचस्पदे तस्मात् पुत्रो हृदयम् तस्मादस्माल्लोकादमल्लोकन्नाभिकामयन्ते पुत्रो हि हृदयम् देवावेदृतभिज्ञात्मनाभ्रातरूपेणादयन्त अभितवर्गम् लोकमजयन् त एवम् विद्वाचतुर्तमुत्मनार्गम् लोकम् गयते षड्मैलोकायषडोता घ्नन्ति खलुत्सोमम् यदभिरुन्ते वृथैवैरमम् लोकम् गमयते चतुर्होत्रा इच्छम् विशोकै चतुर्होता पिशेवात्मन्धत्ते पञ्चहोत्रा पशुमुपसादयति स्वर्गो वै पञ्चहोता विजमानः पशुः विजमानमेव सुवर्गम् लोकम् गमयति ग्रहात्वा सप्तहोतारम् जहोति इन्द्रियम् वै सप्त होता इन्द्रियमेवात्मन्धत्ते यो वै चतुर्होतेर्णसुवणम् तर्पयति निर्गः प्रदया पशुभिः उपैतकम्पे वैष्पवमाने विषहोतारम् चाचक्षेत माभ्यन्दिने पवमाने चतुर्होतारम् आद्भवे पवमाने पञ्चहोतारम् तृगज्ञे दुर्भवतारम् यज्ञायज्ञस्य स्तोत्रे सप्तहोतारम् अनुसवनमेवैनायस्तर्पयते कृप्यति प्रजया पशुभिः उभैनगुंसामपेवावैष होदपिः सत्रमास कामाः हेण्यन्नः प्रथमृच्छात् सर्वेषा ने स्वमश्चतुलहोत्रा पज्ञः पञ्चहोत्रा धाताषट्भोत्रा इन्द्रः सप्तहोरात्रा प्रजापधर्दशहोत्रा हे साकुम् राजा अन्यकामयत तेन <ísim> प्रलायमचरत् तम् देवाः प्रैषैः प्रैषमेच्छन् तत्प्रैषाणाम् प्रैषत्वम् निविभ्यन्निवेदयन् तन्निविदान्निमित्वम् आप्रेभिराप्नुवन् तथा प्रेणामाप्नुत्वम् अवभ्यान् तस्य यशोभ्यगृह्णता ते ग्रहाभवन् तद्ग्रहाणाम् तस्य प्रेमगृहीताः ते ब्रुवन् यो वैरश्रेष्ठो भूज तमवीष्मा पुनरिव इति पञ्छन्दाभिरसुवन्दसाम् साम्नाशमानयन् तत्साम्नः सामत्वम् मुक्तैर्तस्थापयन् तुनामुखत्वम् एवम् वेद ते स्वमोहेशः एवम् विद्वान् सोममागच्छति यश एवेन मृच्छते तस्मादाहोः यश्चैवम् वेदयश्च न प्राभौ सोममागच्छतः स्वमोहेशः तन्त्वा वेश लच्छतेत्याहो यः सोमे सोमम् प्राहेते तस्मात्सो मे सोमः यश एवेन मृच्छति इदम् वा अग्रेणैव किञ्चनासीदेत् नद्यौरासीत् पृथिवे नान्तरिक्षम् परसदेव सन्मनाकरुतस्यामिति तदप्यता तस्मात् बाणाद्भोमाजागत तद्भोजादप्यदा तस्मात् बाणादज्ञरजागत तद्भोजादप्यदा तस्मात् बाणाझ्योतिरजायत तद्भोजादप्यता तस्मात् बाणादर्चिरजायत तद्भोजादप्यत तस्मात् पाणान्मरीचलाजायन्त तर्भोजागप्यता तस्मात् पाणादुताराजायन्त तर्भोजादप्यतभ्रणिपथमान्यत तद्भस्तिमभिनते स समुद्रा भवत् तस्मात् समुद्रश्च न पिबन्ति प्रजनमिष मन्यन्ते तस्मात् पथोराजायमानाराव पुरस्तान्ते तद्दश होतान्वसर्जत प्रजापतिर्वेदश भवतापसो वीर्यम् विद्वा विस्तप्यते भवत्येव तद्वा इदमापःमासे स रोदेत् प्रजापतिः सकस्माज्ञेभ्यस्याप्रतिष्ठा च इति यदप्सवापद्यत सा पृथव्यभवत् यद्यमिष्ट तदन्तरिक्षमभवत् यदोर्ध्वमुदमृष्ट साद्यौ न भवत् यदरोदे स्तम् एवम् वेद नास्य गृहे रदन्ति एतद्वारेकाम् लोकानाम् जन्म यदेवमेकान् लवकानाम् जन्म वेद नैषु लोकेष्वार्थिमाक्षति स इमाम् प्रतिष्ठामविन्दत स इमाम् प्रतिष्ठाम् विद्वागामेत प्रजा ये सदपोदप्यता भवते स तेभ्य मृन्मरे पात्रेऽन्वदुहत् यास्य साधनोराधेयेत् कामपाहता साधमिस्रा भवत् स्वकामैतप्रजा येजेत् सपोदप्यजा सोऽहन्त स प्रजरनादेव प्रजासजन तस्मादिमा भोजिष्ठाः प्रजरनाभ्येनासजना ताभ्योदाेऽपजोदुहत् यास्य साधनोराधेयेत् तामपाहता साजोत्सना भवत् स्वकामेतप्रजालेजेते सो सलपोदप्यता सोऽगर्वाभवत् सोपवक्षाभ्यामेवत्तो रसजता तेभ्यो रजते पात्रे खितमदुभत् यास्यदा तनोरासे तामपाहता सोहोरात्रयोः सन्धिरभवत् स्वकामेतप्रजालेजेते सो तदपोरप्यता त्रे सोमलभत् यास्य सा धनोरासे कामपाहत पदहरभवत् एते प्रजापतेर्दोहाम् वेद दुह एव प्रजाः तद्देवानाहम् देवत्वम् एवम् देवानाहम् देवत्वम् वेद ेववाने भवति हे तद्वाहोरात्राणाम् जन्मोरात्राणाम् जन्म वेद नाहोरात्रेष्वार्थिमाक्षति असतोऽधिमनोऽसजत मनः प्रजापतिमसजत प्रजापतिः प्रजा असजत तद्वा इदम् मनस्वेव नमम् प्रतिष्ठितम् इदम् किञ्च तदेतत्सोपस्य तन्नाम ब्रह्म भृच्छन्ते एव यच्छन्त्यस्मै वस्य देवस्य देवम् यच्छति प्रजायते प्रजयापसुभिनोति एवम् वेदा प्रजापतिरिन्द्रमसजा एतेषाम् देवानामधिन् कस्त्वमसि अयम् वै त्वच्छ्रेजागुम् सस्मै सोऽ कस्तमधिपयम् वेत् तत् श्रेयागम् तस्मै मा देव अवोदन्नि अथवा इदम् जले प्रजापदहाधीर एतस्मिन्नादित्य एतन् प्रयच्छहमेतेनाम् देवानामधिपतिर्भविष्यामीति कोऽत्प्रजायेत् एतत्स्यादित्यब्रवीत् यदेतब्रवीदेति को हवे नाम प्रजापतिः एवम् वेद विजयेनन्नाम्नास्मैरुक्मम् कृत्वा प्रत्यमञ्चत् ततो वा इन्द्रो देवानामधिरविर्भवत् एवम् वेद असिवदेवसमानानाम् भवति सो मन्यता किम् किम् वा अकरमिति हन्द्रम् मा हरे कश्चन्द्रमतश्चन्द्रमस्त्वम् य एवम् वेद इन्द्रवाणे भवति ब्रवन्विचारगोपायते तत्सूर्यस्य सूर्यत्वम् अयेवम् वेद वैनन्दब्रवदे कश्चनास्मिन् वा इदमिन्द्रियम् रक्तस्थादि तेन्द्रस्य एवम् वेद इन्द्रियाव्ये दे� भवति अयम् वा इदम् परमा भोजने परमेष्ठिनपरमेष्ठित्वम् यगेवम् वेद परमामेव काष्ठाः गच्छति देवाः समन्दम् पर्यविशन् परमः पुरस्तार रुद्रादक्षिणदः आदित्याः पश्चाद् विश्वदेवः उत्तरतः अङ्गिरथप्रत्यञ्चम् आद्याः पराञ्चम् यगेवम् वेद उभयेन वे संविशन्ते त प्रजावचदेव भूत्वा प्रजा आवयत् तास्तैनातिष्ठन्तान्नाद्याय तामुखम् पुरस्तात्पश्यन्तेः दक्षिणतः पर्यायन् दक्षिणतः पर्यवर्तयत तामुखम् पुरस्तात्पश्यन्तेः मुखम् दक्षिणतः पश्चात्पर्यायन् स्वपश्चात्पर्यवर्तयत तामुखम् पुरस्तात्पश्यन्तेः मुखम् दक्षिणतः मुखम् पश्चात् उत्तरतः पर्यायन् स उत्तरतः पर्यवर्तयत सा मुखम् पुरस्तात् पश्यन्तेः मुखम् दक्षिणतः मुखम् पश्चात् मुखमुत्तरतः ऊर्ध्वा उदायन् स उपरिष्टान्यवर्तयत ताः सर्वतोमुखो भोद्भावयत् ततो वैतस्मै प्रजातिष्ठन्तान्नाद्यायेवम् विद्वान् पर्यवर्तयत् निजा प्रजापतिरेव भूत्वा प्रजापत्यै तिष्ठन्ते अस्मै प्रजा अन्नादरे अन्नादरेव भवति प्रजापतिलकामेत बहोद्भूजाः स्यामिति सरेदन्तशहोतारमपश्यत् तम् प्रायिङ् तस्य प्रयुक्तिमहोद्भोजान् भवत् यः कामलेदभहोद्भूजाः स्यामिति सदशहोतारम् प्रयुञ्जीत बहोरेव भोजान् स्वकामेन वीरो महाजातेति षदश होदश्चतुर्होतारन्निरमिमेता सम्प्रायुङ् तस्य प्रयुक्तेन्द्रो जायता यः कामजेत वीरो महाजानेति षतु होतारम् प्रयुञ्जेत वीरो वीरो जायते स्वकामेन पशुपान् श्यामिति स चतुर्होदः पञ्चहोतारन्निरमिमेत सम्प्रायुङ् तस्य प्रयुक्तिपशुपान् भवते यः कामने च पशुमान् शामिति सपञ्चहोतारम् प्रयुञ्जेत पशुमानेव भवति स्वकामे तत्तवो मे कल्पे रन्दिरे सपञ्चहोतशब्दोतारम् निर्मीतम् प्रायुङ् तस्य प्रयुक्कृतवोः स्माकल्पन्त यः कामले तत्तवो मे कल्पेरन्दिरेतारम् प्रयुञ्जेत आमे सोपस्वमयाजीजातेतिहोतारम् निर्मित तम् प्रायुङ् तस्य प्रयत्य सपस्वमयाज्य भवते आस्यतापस्सोमयाज्यजायत यः कामगेन सोपस्वमजाजी स्याम आमे सोमपस्वामजाजीजाति सप्तहोतारम् प्रयुञ्जेत सोमवेव सोमजाजीभवति आस्य सपस्वमजाजीजायते सर्वा एष पशुः पञ्चसा प्रतिष्ठति अभ्यन्मुखेन हे देवाः पशूनविपि वा स्वर्गम् लोकमायन् हे मुष्मिल्लोकेऽभ्यक्षुध्यन् हे हे ब्रुवन् अमृतप्रदानम् वा उपजली विमेति हे सप्तहोदाम् पिधा यायास्यम् आङ्गेरम् प्राहिण्वन् एतेनमुत्रकल्पयेति तस्य एवम् वेद कल्पतेऽस्मै स वा अयम् अनुष्ठे यज्ञः सर्दहोता अमुत्रसद्भ्यो देवेभ्यो हव्यम् वहति एवम् वेद उपैनयज्ञो ने चतुर्होदरान् निदानम् वेद निदानवान् भवति अज्ञहोत्रम् वैशहोदरम् निदानम् दर्शपोर्णवासो चतुर्होदः चातुर्मास्यादिपञ्चहोदः सौम्याः ध्वनः सप्तहोतः एतद्देशत होतृणान् निदानम् एवम् वेदा निदानभान् भवति ओ